गणेशपुराणं क्रीडाखण्डम् अध्यायं फिफ्टीन् क उवाच अपरस्मिन् दिने राजा लोकैः सहसभां ययौ विनायकेन सखितो मित्रामत्य समन्वितः तानुवाच तत्सर्वान् बालकस्य गुणान् बहून् गुणवन्तं प्रधानं तं पुरस्कृत्य महाशयम् अहंहि कश्यपं याद आकारयितुमन्तिकं विवाहस्य च सिद्ध्यर्थं पुत्रस्तेनेह योजितः प्रस्थितोनेन यावच्च तावद्र अक्षसमद्भुतम् अरिष्ठानां समूहं च न दृष्टं न च वैश्रुतम् आदावनेन निषदो धूम्राक्षो राक्षसाधिपः जघनश्च मनुश्चापि सहस्रार्धयुदोहदः योऽव्योमनीतवानेन नगरे कन्दुरोहदः विखण्डो बालरूपश्च विधूलश्च महाबलः पतङ्गश्चैव नगरे वादरूपधरोहदः कूढो नाम हदो नेन द्वारि पाषाणरूपधृक कामक्रोधावपिहदौ कर वेषधरावुभौ गजरूपधरकुण्ठो हदो नेन निशाचरः यानि चान्यान्यष्ठानि नाशयिष्यति बालकः इदानीं निश्चयकार्यो विवाहस्य द्विजैः सह देवतास्थापनस्यापि हरिद्रामण्डपस्य च विवाहोपस्करार्थं च ज्योतिश्शास्त्रविशारदैः क उवाच एवमाकर्ण्य तद्वाक्यममात्यावूचतुर्नृपम् अयम् बालपुरे यावद्वर्तते नृपसत्तमम् विवाहो न भेदि दिनो भादि निश्चित अस्ोत्द भविष्य दिने पक्षे मसे गदे राज कर्मस ओमित्युक्दे नृपेणाध जमुसर्वे निजा निजालये राजा विनायकश्चापि भुक्त्वा सुषुपदुःसुखं तदो निषीधे सम्प्राप्ते सूक्ते सर्वजने मुने ज्वालामुखो व्याघ्रमुखो दारुणोधत्रयो दा सुराः इच्छन्दो पचितिं पूर्वं हतानां दैत्यरक्षसाम् सम्पूर्णां नगरीं दग्धो माद्य ऐच्छत्तदा सुरः दारुणो वायुरूपेण मुद्यतः व्याक्रस्यो भक्षितुं तत्र परानभूद एवं ते निश्चयं कृत्वा प्राक्रोशन् सुमहास्वनैः त्रैलोक्यं कम्पितम् सर्वं तदा संशयितम् दृश्यं प्रलय परचक्रं वा किमागतमिति ब्रुवन् व्याक्रास्य सुमहाकायस्ताप्योष्ठम् धरणीतले पूर्वम् परं जगगने मध्ये जिह्वा नदी इव उत्सृजन्मुखदोज्ज्वालाः साम्बरं पत्तनं दहन् यथा हनुमदा दग्धा नगरीं पुच्छ वह्नितः तथा ददाहनगरीं दुष्टोऽसौ मुखवह्नितः दग्धा वृक्षा लता रामा प्रासादनिचयास्तदा कोलाहलो महानासीन्मुखहस्तरवस्तथा त्वा सर्वाणि कार्याणि विद्रवन्दिजनादिशः नगरात् बहिरायान्दं व्याख्रास्योग्रसते नरं तदेव भोजनं तस्य बालकाश्चोपदं शकाः केचिद्वित्रस्तवसना विवस्त्रा च परे यययुः स्त्रिय कूर्पा सका काश्चित् काश्चित् पत्यं शुकाययुः व्याक्रास्य विवरं मत्वा विविशुर्जीवितेच्छया अन्याना कारयन्त्यस्नानभक्षयतसोऽसुरः अकाले प्रलये प्राप्ते काशिराजो विनायकम् सर्वम् विहाय राज्यम् स्वं स्त्री पुत्रादिष्वस्तु सः स्कन्दे गृहीत्वा भ्रमदे नानास्थाने गृहे गृहे अधिदुःखेन सन्तप्तस्तेजसा चैव सुष्मिणः कदम् मया सर्वारिष्टप्रवर्तकः सर्वस्वकारको मौढ्या दुर्निमित्तस्य कारणं विनयनं किमहं ब्रूमा मदित्यैकश्यपाय च निरस्तानि जपूर्वाणि महारिष्टान्यनेन हि आस्ते तूष्णीमिदानीं किं न जानेवापि कारणम् एवं शोचन् दुर्गमुच्चैरुरोह सह तेन सह तयोऽपि दहनो वायुसहायः समुपागमद कुम्भैश्च मृह्मयः सेवकास्तदा शिशिचुसेसद तत्पत्न्यो निर्युर्म बालयुध बवती राजा अश्वाश्वतर विह्वोधसम अश्वाश्वरवीरा रथनागपतातः निर्युर्नगरा पौराश्च सह गोधना विनायक काशिराजं काशिराजो विनायकं गवेषयामस तदा जनक्षये सर्वेषु लोकेषु गदेशु मध्ये तुंडो न निमीलतुण्डम् यावन्न विशदि स्म देवो विनायको नन्दगुणो महात्मा उदयेदु रवेर्जादे विनायकः व्याह्रास्यं दग्धनगरं जनपूर्णं च तन्मुखम् वह्निं च निकटे वीक्ष्य विवेश तन्मुखं बलाद तस्मिन् गदे निजास्येदुन्यमीलयत् सोऽसुरः आस्यं गह्वरसङ्कास्यं सर्वसंहरणेच्छया दारितुं बालकस्तत्र ववृधे दीव पाडयामास तद्देहं व्याख्र देहेन रोदसी अभूच्चडचडाशब्दो वंशानां पाठ्यदामिव तदो द्वेधा भवद्दैत्यो गदासुरभवत्क्षणात् तदेकं सकलं तस्य गगने सदु चिक्षिपे वायुना ब्रह्मा स्मै दद्दूरे देशे पपत च अर्धेन पतता तेन चूर्णितं गहनं वनम् अपरं चाभवत्क्रीडागृहं उदतिष्टं उदतिष्ठंस्तदो लोका अपरानाप्यबोधयन् तदोऽग्निमपि बत् सर्वं पाता कादादचूर्णयद वितारणमहाकायं ज्वालासुरयुगं तदा एवं निहत्य तान् दुष्टान् योगमाया बलेन सह अजीवयन्मृदान् सर्वान्नगरं च यथा पुरा अकार्षी च जगर्जाशु केसरीव विनायकः सर्वलोकश्च राजा च ततस्थं तुष्टुवुर्मुदा नमो नन्दशक्ते गुणानामधीश नमोरिष्टहन्द्रे नमः सृष्टिकर्त्रे नमो विश्वपात्रे नमो विघ्नहन्द्रे नमो ज्ञानदात्रे नमो ज्ञानहन्द्रे अकालप्रलयाद्देवविधिहोत्रा जगत्पदे लीलावतारदैत्योभ्यो रक्षिता लीलया त्वया कस्य सामर्थ्यमेधावध्वन्हिं पादुं महाबलं भूगोलसदृशास्यं को हन्यादन्यो महासुरम् मृतानां जीवनं को नु त्वधन्यकर्तुमुत्सहेद त्वमेव जननी देव त्वमेव जनकोविता महाभाग्यजनानां मे येन ते सन्निधिकृतः एवमुक्त्वा रुरोहाश्वं सिंहयानं विनायतः स्वं स्वं वाहनमारूढाः सर्वे वीरासहस्रशः सुखेन मन्दिरम् गत्वा नित्यकर्मा करोन्मुदा स्वं स्वं च मन्दिरं यादा सर्वे पौरा निरामयाः वाद्यत्सु सर्ववाद्येषु तुष्टोर्बन्दिनो नृपन् काशिराजोधविप्रेभ्यो दा ददौ दान्यनेकशः स्वस्ति वाच्य पुपूजाशु देवास्तं च विनायकम् उपायनानि देवाय नानालोकात् दधुस्तदा विनायकोऽपि विप्रेभ्यो ददौ तानि यदृच्छया अमात्यानां च वीराणामंशकानि ददौ नृपः विसृज्य सर्वान् भुक्त्वा तौ सुखेन स्वापनीयदुः य इदं शृणुयाद्भक्रिया नगरी मोक्षणं नरः सर्वान् कामानवाप्नोति नारिष्ठैर्बाध्यते क्वचिद इति श्री गणेशपुराणे क्रीडाखण्डे बालचरिते नगरी मोक्षणं नाम पञ्चदशोऽध्यायः ओ